मुद्गलपुराणं खण्डं सिक्स् विकटचरितम् अध्यायं ट्वेण्टि टु क्षेत्रसंन्यासादिवर्णनं श्रीगणेशाय नमः भृशुण्ड्युवाच अथ वक्ष्यामि देवेश मयूरप्रापकं महद पुण्यं चित्तैकभावेन शृणुध्वं सुखदायकम् कुत्र आङ्गिरसे जातो देवप्रिय इति श्रुतः पुरा कल्पे स धर्मात्मा स्वधर्मनिरदो भवद गणेशे प्रीतिसंयुक्तो गाणपत्यप्रियो भवद मुक्तिमिच्छन् सदा कर्माणि चकारविधानतः ततस्तस्य महेशाना बुद्धिप्रादुर्बभूवः तया सम्प्रेरितस्तीर्थानि क्षेत्राणि चकारः शास्त्रे विधिं समाश्रित्य पृथिव्यां मुख्यतानि सह क्षेत्राणि तीर्थमुख्यानि यात्रया चागरोद्विदः ततः स्वगृहमागत्य धारापत्यै समन्वितः गणेशमभजन् नित्यं भक्तियुक्तेन च दशा ततश्च मानसे सोऽपि विचारमकरोत्परम् अहो मयूरपक्षेत्रम् सेवनीयम् निरन्तरम् ज्ञात्वा द्विजम् समुद्युक्तम् दारापत्यैः समन्वितम् माया तम् पीडयामास मयूरे वासभञ्जनाद यात्रार्थं तेन गृहे यत्किञ्चिद्गृहे द्रव्यादिसञ्चितम् तदेव चौरमार्गेण नष्टं माया प्रभावतः ततोधिविस्मितो भूत्वा खेदयुक्तो बभूवः पापयुक्तोऽहमत्यन्तं तेन विघ्नयुधकृतः शुक्लवृत्त्यागमिष्यामि मयूरे शं न संशयः ततो ज्वरसमयुक्तो बभूव ब्राह्मणोत्तमः निर्जगामतदसोऽपि स्वगृहे ज्वरसंयुधः शुक्लवृत्तिधरो भूत्वा नियम्यात्मानमात्मना तृतीये दिवसे तत्र विघ्नेशो विघ्नहारकः बभूव सद्विजस्यापि परं शृणुत चेष्ठितम् गणेशकृपया विप्रोज्वरहीनो बभूवः ब्राह्मणस्य स्वरूपेण गणेशस्तं समाययौ तस्य पुत्रं समाहूय द्रव्यं दत्त्वा सुपुष्कलम् अन्तर्दानं चकारासौ पुत्रस्तादं जगादतु ज्ञात्वा देवं विचार्यैव स्वस्तचित्तो बभूवः देवप्रियो मयूरेश मा जगामद्विजोत्तमः यात्रादिकं चकारासौ गर्भागारे समाश्रितः अभजद्गणराज्यं तमन्दे तल्लीनदां व्ययौ ब्रह्माण्डे सेवितानि चेत् तदा नरेण ना मायूरक्षेत्रं लभ्यं महेश्वराः देवेशा ऊजुः चोरादयसमाख्यादास्त्वया ब्रह्मर्षि सत्तम किं चक्रूर्येन पुण्येन मयूरेशेलयं व्ययुः भृशुण्ड्युवाच पूर्वजन्मनिमाहात्म्यम् संश्रुतम् किञ्चिदप्यहो क्षेत्रस्य पापकर्मस्था अन्ते तत्सस्मरुर्यदि अन्ते स्मरणयोगेन पापिनोऽन्यभवेकदा ययुः क्षेत्रे मरणदो लयं देवागणेश्वरे गणेशस्य च मार्गस्य श्रवणं पापचेदसां भवेन्नाविधस्यापि किञ्चिद्देवेन्द्रसप्तमाः यदि मरणकाले तु तस्य संस्मरणं भवेत् पुरो जन्मनि जन्म चाज्ञा तवद अथवा ज्ञानयुक्त नरस्तरेद्वा तरे ब्रह्म भूत स जायते अथ संस्कारु गणेश प्रवेशो न भवेत्तस्य चरित्रं शृणुत प्रियाः क्षत्रियः सुलभो नाम बभूव पृथिवीपदिः अङ्गदेशस्य राज्यं स चकार धर्मसंयुधः मयूरेशस्य सश्रुत्वा माहात्म्यं क्षेत्रसंभवं। पुत्रे राज्यं परित्यज्य वासार्धं मनो दधे यदा शास्त्रं विधानेन मयूरेश्यं समाययौ चकारविधिना यात्रां स्वयं द्वारादिचिह्नितां ततस्तत्र तदस्तत्रस्तिदो राजा वार्षिकीं विविधां पुनः चकार यात्रां क्षत्रस्थो देवादीनां विधानतः तदो मनसि सन्ध्यार्यक्षेत्रसन्न्यासकारणाद् सर्वानाज्ञापयामासस्त्रीकस उवासः तदस भैरवेणैव बुद्धिभेदयुधकृतः विचारमकरोचित्ते किमिदं क्षेत्रमुत्तमं न काशीतुल्यतां यादिक्षेत्रम् ब्रह्माण्डमण्डले अयम् शिवसुद्धः प्रोक्तो मयूरेशो न संशयः ब्रह्म सर्वत्र योगेन तिष्ठदितेन वर्ण्यते वेदादिषु गणेशानो ब्रह्मरूपीन न मुख्यतः भ्रमिदो नूनं वाण्या पुराणसंस्थया संस्थया न सन्देहः क्षेत्रं काशी समाश्रितं एवं विचार्य भूपालो मयूरं त्यज्य देवपाहा काशीं जगाममार्गे स ममाररोगसंयुदः पूर्वसंस्कारयोगेन काश्यां स ब्राह्मणोऽभवत् धर्मयुक्तश्चकारापि काशीवासं हिदार्थदः मरणोन्मुखकालाय तस्मै विश्वेश्वरस्वयं गणेशैकाक्षरं मन्त्रं ददौ तारकनामकं शौनक उवाच कथां विचित्रां वदसि सुदत्वं हर्षदायिनी तत्र संशयकं चिन्धि वदिष्यामि त्वदग्रदः मनामभवं मन्त्रमवदत्तारकं परं पुराणं कुत्रचिद्देवं शिवपञ्चाक्षरं पुनः कुत्रौङ्कारं च कुत्रापि कुत्रा शक्तिसूर्यात्मकं परं गणेशैकाक्षरं कुत्र निश्चयो नैव जायते वद सर्वज्ञसत्तमत्वदन्यः संशयच्चेत्तास्माकं नैव भविष्यति सूत उवाच बिम्बरूपं महद्ब्रह्म स एव चतुरानः गणेशैकाक्षरे मदः विष्णु सर्व प्रवर्तक अकाराक्षर संस्थ मंद्रराजे महामुने तय संहारकर्ता शंकर वरदाना गणेश मंत्रे जानी निश्चित तेषां मनोमयो भानुस्वस्वकर्मधरो बभौ सानुनासिकरूपेण मन्द्रे सोऽपि प्रतिष्ठितः चतुर्णां देहरूपा सा चक्रेर्वाणी मयी सर्वत्र संस्थिता विप्र दृश्यस्वभावदः येभिसृष्टं जगत्सर्वमोङ्काराकृतिलक्षणं तत्र क्रीडन्ति तेनैव मन्त्र ओङ्कारसंयुतः ये तेषामर्थभावेन गणेशश्च प्रकीर्तितः स एव देवता प्रोक्ता वेदेषु वेदवादिभिः गणेश मंद्रगा दगन्नाधं ब्रह्म तथा त्रस्द मदम यहाप से वै गणेशस्ते तथा मंत्र प्रकर्ति अन्यच्च शृणुभावेन काश्यां नानाविधा जनाः तिष्ठन्ति विविधान् देवान् भजन्ते भक्तिसंयुधाः तेषु स्वधर्मनिष्ठायै काशीवासं यथाविधि कुर्वन्ति तारकं तेभ्यो ददाति शङ्कर स्वयं तेषु शाक्दास्थितास्तत्र क्रिमय पर कथयामस शरकुणा सौरेभ्य सौरभावाभ्यं श्य शिवक वैष्णव विष्णु भक्भ्यारकदिवधर्मता कर्मचक्रुश निश कर्माङ्गदेवप्रीत्यर्थमोङ्कारं तेभ्य आदिशद गणेशा ये स्थितास्तेभ्यः पूर्णतारकरूपकं गणेशैकाक्षरं मन्त्रं ददाति हर्षसंयुधः ते सर्वे तारकं प्राप्य कैलासे शिवसन्निभाः अधिष्ठन् योगमास्थाया मन्त्रध्यानपरायणाः साक्षात्कारं प्रचक्रुस्ते ब्रह्म यन्मन्त्रगम्बरम् तत्र तल्लीनभावेन योगिनो बभ्रमुस्तदः महालये महेशस्य शरीरे लीनदां ययुः पुनः सृष्टौ नरा तत्र योगरदा बभुः मन्त्रं मन्त्रार्थभावं च त्यक्त्वा ब्रह्मणि संस्थिताः स्वस्वेष्टब्रह्मगा अन्ते भवं स्थे मुनिसत्तम ये पापकारिणः काश्यां वसन्ति यदि ते तेभ्यस्तारकरूपं तु न ददाति सदाशिवः भैरवीं यादनां ते दु भुक्त्वा कैलासमस्थिताः लये मरणसंयुक्ता पुनर्जन्मधरामदाः शौनक उवाच वदन्ति वै मुनयो ब्रह्मवादिनः क्षेत्रेषु नानाभावेषु मृदा मुक्तिमवाप्नुयुः तीर्थानि स्नानमात्रेण मुक्तिदानि वदन्ति च व्रतादीनि महाप्राज्ञ नानामदविभेदः सकामानि च कर्माणि कथितानि मुनीश्वरैः नानाविधानि वैदेषु संस्मृतानि फलानि च तेषां कर्तार एवं ये फलाव इह किंचिके केजि तो परत्र ईजसत्तम केजिस्वलफल केजिपुषम संशय किमीद कौतुक विप्रद कारण काश्या मुक्रिम विशेषेण प्रावधि नादय त्र मेसूद कदम ते जन्मोवन सूद उवाच शब्दब्रह्मस्वरूपोऽयं गुरुरेकः प्रकीर्तितः सर्वेषां विविधानां तु शिष्याणां नात्र संशयः शिष्याश्च दुर्विधा प्रोक्ता उत्तमा मध्यमास्तथा अधमा अधमेषु चाधमा मुनीन्द्रसत्तमा विषयासक्तचित्ता ये पापकर्मपरायणाः दुःखयुक्ता यदात्यन्तं तदर्थं कर्मसेविनः अधमाधमरूपाश्च कथितास्ते महर्षिभिः स्वल्पं फलं प्राप्नुवन्तीह परत्र सुनिश्चितं यदि कर्मफलं स्वल्पं ददाति कथितं सदा तत्र तुचिर्नोत्प्य मूर्ख तचन भाथ प्रवृत्थ समाख्यादं पर लज्जया ये दु भयाद्वा कर्मकिण अधमास्ते। समाख्यादा प्राप्नुवन्ति अधिकं फलं सकामाये स्वधर्मस्था कर्म कुर्वन्ति नित्यशः मध्यमास्ते फलं सर्वं भुञ्जन्ति कालमानतः निःकामाकर्मकर्तार उत्तमास्ते फलं मुने अक्षयं कल्पपर्यन्तं भुञ्जन्ति अत्र न संशयः त्रव युगम ते कथ सर्म हृदम जायते मुने प्रेदायां चुद कर्मकर्मा बाध कालुदी प्राणि किल्वापरलोके व्याकर्मा बाध जिहते वापि भुञ्जन्ति धर्महीनप्रभावदः कलौ तु परलोके ते वान्यजन्मनि मानवाः सम्भोक्ष्यन्ति कृतम् कर्म कालमानप्रभावदः असूरेणैव भावेन नरा ना सत्तादिवर्जिताः अदो जानीहि रुच्यर्थम् फलम् चित्रम् भवत्यहो यथा विधिकृतं कर्म तदा फलप्रदं भवेद अन्यथा कारकायैवा सुरं दध्यात् फलं सदा कृते कर्म सकृतस्य फलं लभेद त्रेधायां निष्फलं दृष्ट्वा तदा द्विगुणमाचरेद फलं ददादि त्रिगुणं द्वापरे कर्म कलौ चतुर्गुणं प्रोक्तम् इह जन्मनि सौख्यदं सकृच्चापि फलं कृत्वा लभेत् सत्कर्म मानवः अथवा युगधर्मेण चतुर्गुणं फलं लभेद् अन्यत् काश्यादिमाहात्म्यसम्भवं विपरीतगं मन्यसे तत्र वक्ष्यामि शृणु आत्मानुभवहीनो यो मर्त्यो मोक्षं लभेन्न वै इदं मुख्यं विजानीहि ह्यन्यत्र भ्रममात्रकं यथा देवगणाः सर्वे मरा शास्त्रे प्रकीर्तिताः ब्रह्मणो दिवसान्ते मृत्युयुक्ता भवन्त्युद नराणां तत्र जन्मानि संख्या हीनाशनकमरा संगीर्ति बुध ही। तथा पंचदेस्ेरा शास्त्रे प्रकर्तिघ्नयुक्ता अनी शास्े पश्यमद महालिए मष्युन संभ्यु किल पञ्चदेवानसन्देहो ब्रह्माद्या शास्त्रमार्गदः तेषां लोकेषु क्षेत्रेषु मदामुक्तिश्च तादृशी मरणै संयुतान्येव क्षेत्राणि तत्र का कथा इन्द्रादीनाम् विनाशे ते समर्था मृत्युहीनकाः तेषाम् जन्ममृदि जन्तुर्न पश्यति कदाचन ईश्वरत्वमदशास्त्रे कथितं रुचिकारणाद् जन्ममृत्युविहीनापि मोक्तिस्सङ्कथिता बुधैः वेदशास्त्रपुराणेषु स्वानन्दो लयवर्जितः सदा ब्रह्ममयत्वाद्वै तत्र मोक्तिर्विशिष्यते स्वानन्देनैव यद्दत्तं तदेव ब्रह्मसौख्यदम् पात्रहीनप्रभावत्वाद्विजैरन्यत्र वर्ण्यते अन्यत्र, अन्यत्र मुक्तिदान्येव प्रोक्तानि शास्त्रसम्मतैः वासदानि तु तीर्थानि तानि क्षेत्राणि सप्तसु मृतःषट्सु नरस्तासु काश्यां धर्मयुधो भवेद मरणं तारकं प्राप्य ज्ञानयुक्तो भवेत् स्वयं पुनर्जन्मनि योगी स भवत्यत्र न संशयः स्वेष्टं ब्रह्म समाप्नोति निश्चितं वेदगुह्यतः योगं श्रुत्वा नरो यस्तु पापकर्मपरायणः मरणे संस्मरेद्योगं समयूरे भविष्यति यत्र कुत्रस्त आगत्य मयूरे ह्यथवा स्वयं मरिष्यदिनसन्देहो महापापयुतोऽपि चेत् अथवा क्षेत्रमाहात्म्यं श्रुत्वा कुत्र स्थितो यदि मरणकाले संस्मरेत् स तथा भवेद मयूरस्याथवा यात्रामेव कृत्वा नरोत्तमः यत्र कुत्र मृतः सों ते संस्मरेत् स तथा भवेद अथवा सङ्गयोगेन गणेशे रुचिमा नरो मयूरक्षेत्रे स मरणं प्राप्नुयात् परं शिवविष्णुवादिलोकेषु संस्थितस्तत्र सङ्गतः गणेशे प्रीति युक्तश्चेत् स मयूरे भविष्यति अधिसंस्कारसंयुक्तः स क्षेत्रे मरणं तत्र चालभेद योगिनः शान्तिरूपाश्च चित्तं त्यक्त्वा गणेश्वरे लीनास्ते यत्र कुत्रापि मृदा गाणेशतां ययुः योगिनां मरणे विप्र यादृश्यं स्मरणं भवेद तादृशीं न सोपि लभदे लभते तथा मयूरक्षेत्रे ये मृतास्ते शां न विद्यते अन्धे मदिर्यथा विप्रगतिः सर्वत्र पठ्यते इदं सर्वं समाख्यातं शृणु प्रकृतमुत्तमं कथानकं महीपश्य यथा मुद्गलभाषितं भृशुण्ड्युवाच मयूरक्षेत्रे सुलभो वासं कृत्वा ययौ पुनः सियाम तस् मृदौ क्षेत्र मयूर स्मृति भव। तेना तेन गणेशर दध मंद्र महेशर श्री कशिव कैलासे च महाल शिवे लीन पुनसृष्टौ मयूर के ब्राह्मण सभूवा भी श्री तत्र स्वल्पेन कालेन योगयुक्तो बभूवः ब्रह्मभूतस्स जीवन्वै वै मरणे तत्र का कथा यं संस्कारयोगेन मयूरे निवसन्ति ते यत्र कुत्र स्थिताश्चेद्वै गमिष्यन्ति मयूरकं क्षेत्रसंन्यासिनां देव वदामि मार्गमुत्तमम् आदौ द्वारयुधां यात्रां कुर्यात् संन्यासकारणाद पश्चात्क्षेत्रं समाश्रित्य तिष्ठे नियमसंयुधः न गच्छेत् क्षेत्रबाह्यं संन्यासभङ्गभयाकुलः नानादुःखयुधश्चेत् त्यागं मयूरस्य वैनसः कुर्यात्तेन गणेशेन तुल्य सर्वत्र सम्मतः देवागारस्य यात्रां स कुर्याद्वारसमन्विताम् अन्त्यां नैव समाख्यादां क्षेत्रबाह्यप्रवेशनाद क्षेत्रसीमास्तद्देवाद्यास्तेषां कुर्यान्निरन्तरम् यात्राम् यात्रा विचारज्ञः स योगी योगिनाम् गुरुः अत्राहम् कथयिष्यामि चेदिहासम् पुरातनम् क्षेत्रसन्न्यासिना युक्तम् क्षेत्रम् नैव भवेत्कदा जामदग्न्यो द्विज सोमदत्त इति श्रुतः बाल्यात्प्रारभ्य विघ्नेशभक्तियुक्तो बभूवः स्वाश्रमत्सोऽपि शस्त्रीको मयूरेशं समायदौ यात्रां कृत्वा विधानेन स्थितौ द्वारादिचिह्नितां ततः क्षेत्रे स वासार्थं मनो दध्रे महामदिः क्षेत्रसंन्यासकं कृत्वा मयूरे संस्थितः पुरा तत्र रक्षो बलं प्राप्तं करस्य दारुणं महद राक्षसं पपलुः सर्वे दृष्ट्वा क्षेत्रनिवासिनः दृढाग्रहं सोऽपि कृत्वा सोमदत्तो महामुनिः मयूरे संस्थितो देवा मयूरेश परायणः राक्षसास्तं महाभागम् धृत्वा क्रोधसमन्वितः ताडयामासुरत्यन्तं कर्मखण्डनकारणात् मुमोचासौ तथापि न स्वधर्मं सोमदत्तकः मध्यमांसाधिकं गृह्य चलितो राक्षसैर्बहु तथापि धैर्यमालम्ब्य स्मृत्वा विघ्नेश्वरं द्विजः मयूरेशं समभ्यर्च्य संस्थितो भयसङ्कुलः ततस्तं राक्षसा बद्ध्वा करं निन्युर्महोल्बणं तेन कारागृहे क्षिप्तो मयूरेश परायणः उपोषणपरपूजां मानसीं चकारः अधिशोकसमयुक्तो कृदि ध्यात्वा तदो विघ्नेश्वरः क्षुब्धो बभूवे भक्तकारणाद चकार शं स स विघ्नं विघ्नदायकः समायादा स्यूर्पनखातं जगादखरं वचः खिन्ननासिकरूपं स्ववृत्तान्तं तुन्यवेद यद तच्छ्रुत्वा क्रोधसंयुक्तकरो जगामः रामेण राक्षसै सार्धम् अधो मृत्युमवापः ततः क्षेत्रनिवासस्था अययुस्ते महेश्वराः बन्धाद्विमुच्यते सोमदत्तं सुहर्षिताः एवं नानाविधैर्दुःखै पीडितो मुनिसत्तमः तथा भिक्षेत्र सन्त्यागं न चकार कदाचन तदो गणेश्वरो देवो ययौ भक्त्या नियन्त्रितः स्तुतः सम्भुजितस्तेन तमीप्सिदवरं ददौ स ययाचे गणेशान्नं तव सान्निध्यगं गुरु तत्र नित्यं भजिष्यामि भक्तिमार्गपरायणः तथेदितं चकारासौ मयूरेशो महामुनिं स महेशाना महेशना योगप्रिय इदिश्रुदः। श्रुतः एवं नानाविधास्तत्र क्षेत्रसंज्ञासमाश्रिताः मया सिद्धि ययुर्माभागा मै वक्त नक्यम सामख्या संक्षेपेण मैं श्रवणत्सर्वख्यदम भक्तिवर्धनम ओं तत्सिश्रीमदाध्ये पुराणोपनिषति श्रीमद्गले महापुराणे षष्ठे खण्डे विकटचरिदे क्षेत्रसन्न्यासादिवर्णनं नाम द्वाविंशतितमोऽध्यायः ओम्